अथ विंशः सर्गः सताम् परिवृताम् दीनाम् निरानन्दाम् तपस्विनी साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः माम् दृष्ट्वा नागनासोऽनुगूहमानास्तनोदरम् अदर्शनमिवात्मानम् भयान् नेतुम् त्वमिच्छसि कामये त्वाम् प्रिये सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे देह किञ्चिन्मनुष्या वा राक्षसा कामरूपिणः यप सर्पतु ते सीते स्वधर्मो रक्षसाम् भीरो सर्वदैवनसंशयः गमनम् वा परस्त्रीणाम् हरणम् सम्प्रमथ्य वा एवम् कामं काम शरीरे मे यथा कामं प्रवर्तता दिवे क्य मयि विश्वसी प्रि प्रणयस्व तेन मिलम भू शोकलालसा एकणीधराशय्या ध्यानम मलिमंबरस्थप्युपवास नईता नौपैका विचिरा चालगरू च विविधानि च वासांसि दिव्यान्याभरणानि च महार्हाणि च पानानि शयनान्यासनानि च गीतम् नृत्यम् च वाद्यम् च लभ माम् प्राप्य मैथिली स्त्रीरत्नमसि मैवम्भूः कुरु गात्रेषु भूषणम् माम् प्राप्य हि कथम् वा स्यास्त्वमनर्हासु विग्रहे इदम् ते चारु सञ्जातम् यदतीतम् पुनर्नैतिः स्रोतः स्रोतस्विनामि वा त्वाम् कृत्वो परतो मन्ये रूपकर्ता स विश्वकृत् न हि रूपोपमाह्यन्या तवास्ति शुभदर्शने त्वाम् समासाद्य वैदेहि रूपयौवनशालिनी कः पुनर्नातिवर्तेत साक्षादपि पितामहः यद्यत्पश्यामि ते शीताम् शुसदृशानने तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते भव मैथिलिभार्या मे मोहमेतम् विसर्जय बह्वीनामुत्तमस्त्रीणाम् ममाग्रमहिषी भवा लोकेभ्यो यानि रत्नानि सम्प्रमध्याहृतानि मे तानिते ते भीरुसर्वाणि राज्यम् चैव विजित्य पृथिवीम् सर्वाम् नानानगरमालिनीम् जनकाय प्रदास्यामि तव हेतोर्विलासिनी नेह पश्यामि लोकेऽन्यम् यो मे प्रतिबलो भवेत् पश्यमे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे मा असकृत्संयुगे भग्ना मया विमृदितध्वजाः अशक्ताः प्रत्यनीकेषु स्थातुम् मम सुप्रभाण्यवसज्जन्ताम् तवाङ्गे भूषणानि हि साधु पश्यामि ते रूपम् सुयुक्तम् प्रतिकर्मणा प्रतिकर्मापि संयुक्ता दाक्षिण्येन वरानने भुङ्क्ष्वभोगान्यथा कामम् पिबभीरुरमस्व च यथेष्टम् च प्रयच्छत्वम् ललस्वमयि विश्रब्धा धृष्टमाज्ञापयस्व मत्प्रसादा ललन्त्याश्च ललताम् बान्धवस्तव ऋद्धिम् श्रयं त्वम् श्रियम् भद्रे यशस्विनी किम् करिष्यसि रामेण सुभगे चीरवासिना निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः व्रतीस्थण्डिलशायी च शङ्के जीवति वा न वा न हि पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामि वावृता न चापि मम हस्ता त्वाम् प्राप्तुमर्हति राघवः हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामि वा चारुस्मिते चारुदति चारुनेत्रे विलासिनी मनोहरसिमे मे भीरु सुपर्णःपन्नगम् तन्वीमप्यनलङ्कृता त्वाम् दृष्ट्वा स्वेषु दारेषु रतिम् नोपलभाम्यहम् अन्तः पुरनिवासिन्यस्त्रियः सर्वगुणान्विताः यावत्यो मम सर्वासामैश्वर्यम् कुरु जानकी मम ह्यसित केशान्ते त्रैलोक्यप्रवरस्त्रियः तास्त्वाम् परिचरिष्यन्ति श्रियमप्सरसो यथा यानि वै श्रवणे च धनानि च तानि लोकांश्च शुश्रोणि मया भुङ्क्ष्व यथा सुखम् न रामस्तपसा देवि च विक्रमई न धनेन मया तुल्यस्तेजसा यशसापि वा पिबवि हर रमस्व भुङ्क्ष्व भोगान्धन निचयम् प्रदिशामि मेदिनीम् च मयि लललललने यथा सुखम् त्वम् त्वयि च समेत्य ललन्तु बान्धवास्ते कुसुमित तरुजालसन्ततानि समुद्रतीरजानी कनकविमलहारभूषितांगी कनक विमलहारभूषिताङ्गी विहर इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः